वैशम्पायन उवाच गङ्गाद्वारम् प्रति महान् बभूव भगवान् ऋषिः भरद्वाज इतिख्यात ख्यातः सततं संशितव्रतः सोऽभिषेक्तुम् ततो गङ्गाम् पूर्वमेवागमन्नदीम् महर्षिभिर्भरद्वाजो हविर्धाने चरन्पुरा ददर्शाप्सरसं साक्षाद्भृता चीमाप्लुताम् ऋषिः रूपयौवनसम्पन्नां मददृप्तां मदालसाम् तस्याः पुनर्नदीतीरे वसनं पर्यवर्तत व्यपकृष्टाम्बरां दृष्ट्वा तां ऋषिश्चक्रमे ततः तत्रसंसक्तमनसो संसक्तमनसो भरद्वाजस्य धीमतः ततोऽस्य रेतश्च स्कन्दतदृशीर्द्रोण धीमतः अघ्य गी स वेदा चर्वश अग्निवेश महाभाग भरद्वाज प्रतापवान्तपयदानेयमस्त्रमस्त्र विदर अग्ने मुनी भरत सत्तम भारद्वाज तदाने महास्त्र प्रत्यत भरद्वाज सखा चासी पृष तो नाम पार्थिव तस्यापि द्रुपदो नाम तदा समभवत्सुतः सनित्यमाश्रमं नित्यमाश्रमम् गत्वा द्रोणेन सह पार्थिवः चिक्रीडाध्ययनम् चैव चकारक्षत्रियर्षभः ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् पञ्चालेषु महाबाहुरुत्तरेषु नरेश्वर भरद्वाजोऽपि भगवानारुरोह दिवम् तदा तत्रैव च वसन्द्रोणस्तपस्ते पे महातपाः वेदवेदाङ्गविद्वांसतपसा तपसा किल्बिषः ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः शारद्वतीं ततो भार्याम् कृपीं द्रोणोऽन्वविन्दत अग्निहोत्रे च धर्मे च दमे च सततं रताम् अलभद् गौतमी पुत्रमश्वत्थामानमेव च सजातमात्रो व्यनदद्यथैवोच्चैश्रवाहयः